नारदपुराणम् उत्तरार्धम् अध्यायम् सिष्टि वसुरुवाच तदो गच्छे द्विधिसुधे तीर्थे यज्ञाङ्गसम्भवम् इन्द्रद्युम्न सरो नाम यत्रास्ते पावनं शुभं तत्र गत्वा शुचिर्विद्वा नाचम्यमनसा हरिम् ध्यात्वोपस्थाय च विभुं मन्त्रमेनमुदीरयेद अश्वमेधाङ्गसम्भूततीर्थसर्वाकनाशन स्नानं त्वयि करोम्यद्य पापं हरणमोऽस्तु दे एवमुच्चार्य विधिव स्नात्वा देवान् ऋषीन् पितॄन् तो लोदकेन वाण्यांश्च सन्तर्प्याचम्यवाग्यदः दत्त्वा पितॄणां पिण्डांश्च सम्पूज्य पुरुषोत्तमम् दशाश्वमेऽधिकम् सम्यक् फलम् प्राप्नोति मानवः सप्तावरान् सप्तपरान् वंशानुधृतदेववद कामकेन विमानेन विष्णुलोकम् स तत्र वरान् भोगान्यावचन्द्रार्कतारकम् च्युतस्तस्मादिकायादो मोक्षं च लभते ध्रुवम् एवं कृत्वा पञ्चतीर्थीमेकादश्यामुपोषितः ज्येष्ठशुक्ले पञ्चदश्याम् यः पश्येत् पुरुषोत्तमम् स पूर्वोक्तफलं प्राप्य क्रीडित्वा चाच्युतालये प्रयादि परमं स्थानं यस्मान्नावर्तते पुनः पृथिव्यां यानि तीर्थानि सजितश्च सरंसिजं पुष्करिण्यस्तडगानि वाप्यकोपास्तथा ह्रदाः नानानद्यसमुद्राश्च सप्ताहं पुरुषोत्तमे ज्येष्ठशुक्लदशम्याधिप्रत्यक्षं यान्ति सर्वदा स्नानदानादिकं यस्माद्देवताप्रेक्षणे सदि नृभिर्यत्क्रियते तत्र तत्सर्वं चाक्षयम् भवेद् ज्येष्ठमासे द्विदशमी शुक्लपक्षस्य मोहिनि हरदे दश पापानि तस्माद् दशहरा स्मृताम् यस्तस्याम् हलिनं कृष्णं पश्येद्भद्रां च सुव्रतः सर्वपापभिनिर्मोक्तो विष्णुलोकं प्रजेन्नरः नरो दोलागप्तम् दृष्ट्वा गोविन्दम् पुरुषोत्तमम् फाल्गुन्याम् सं यदो भूत्वा गोविन्दस्य पुरम् प्रजेद विषुवेदिवसे प्राप्ते पञ्चतीर्थविधानदः दृष्ट्वा सङ्घर्षणम् कृष्णाम् सुभद्राम् च सुलोचने नरः समस्तयज्ञानां फलप्राप्नोति दुर्लभं विमुक्त सर्वपापेभ्यो विष्णुलोकं च गच्छति यः कृष्णं चन्दनरुषितं वैशाखस्य सुधे पक्षे यदा भवेन्महाज्यैष्ठी राशिनक्षत्रयो गतः प्रयत्नेन तदा मर्त्य पुरुषोत्तमं कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां मोहिनी नरो द्वादशयात्राणां फलं प्राप्नोदि प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये गङ्गाद्वारे च कु जाम गंगा सागर सागरसंगोका मुखेशुक मधुरायां मरुस्थले वायुतीर्थे मंदरम सिंधुसागरे पिंडारक चिंत्रकूटे प्रभासे कनखले तथा शंकोद्धारे द्वाराश्रम लोकगूटे चाश्वतीर्थे सर्वपापप्रमोचने कर्दमाले कोडितीर्थे तथा चामरकण्टके लोलाकं जम्बुमार्गे ज सोमतीर्थं पृथूदके उत्फलावर्तके चैव पृथुतुङ्गे स कुब्जके ये काम्रके ज केदारे काश्यां वा विरजे सदि कालं करे जगो करने जगोकर्णे श्रीशैले गन्धमादने महेन्द्रे मलये विन्ध्ये पारियात्रे हिमवये सख्ये जशुक्रिमदिज गोमन्दे चार्बुदे तथा गङ्गायां च महाभागे यत्पुण्यं यामुनेषु च सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु गोदावरीभिमरदि तुङ्गभद्राजनर्मदा ताभि पयोष्णी काव्यरी क्षिप्रा चर्मन्वदी तथा वितस्ता चन्द्रभागा च शददृबाहुदा तथा ऋषिकुल्या मरुधृता विपाशा च तृषद्वदी सरयोर्नागगङ्गा च गण्डकीजमहानदी कौशिकी करतोया च तिस्रोदा मधुवाहिनी महानदी वैतरणी याश्चान्यानानुकीर्तिताः ताः सर्वान् समः प्रोक्ता कृष्णसन्दर्शनस्य च यद्भलं स्नानदानेन राघुग्रस्ते दिवाकरे तद्फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभे नरः तस्मात् सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमं महाज्यैष्ठ्यां विधिसुदे सर्वकामफलेप्सुभिः दृष्ट्वा रामहाज्यैष्ठ्यां कृष्णं चाभिसुभद्रया विष्णुलोकं नरोयादि यादि समुद्धृत्य कुलं शतं भुक्त्वा तत्र परं भोगन्यावधाभूतसम्प्लवं पुण्यक्षयादिहागत्य चतुर्वेदि द्विजो भवेद स्वधर्मनिरतशान्तकृष्णभक्तो जितेन्द्रियः वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयाद मासिज्यैष्ठेज सम्प्राप्ते नक्षत्रे चेन्द्र दैवते पौर्णमस्यां तदा स्नानं प्रशस्तं सागराम्भति सर्वतीर्थमयकूपस्तदास्ते स जलश्युचिः तथा भगवति तत्र प्रत्यक्षा भवति ध्रुवं तस्माज्यैष्ठ्यां समुद्धृत्य हैमादिकलशैर्जलं कृष्णरामाभिषेकार्थम् सुभद्रायाश्च मोहिनी कृत्वा सुशोभनं मं चम्पदाकाभिरलङ्कृतं सुदृढं सुखसञ्चारं वस्त्राय पुष्पैरलङ्कृतम् विस्तीर्णं धूभित धूपै स्नानार्थरामकृष्णयोः पेदवस्त्रपरिच्छन्नमुक्ताहारावलम्बितम् तत्र नानाविधैर्वाद्यैकृष्णं नीलाम्बरं सदि मञ्चे संस्थाव्यभद्रां च जय मङ्गलनिस्वनैः ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मोहिनि अनेकशद साहस्रैर्वन्दम् स्त्रीपुरुषैस्तथा गृहस्तास्तादकाश्चैव गृहस्तास्त्रादकाश्चैव यदयो ब्रह्मचारिः स्नापयन्ति तदा कृष्णम् मं च सहसालायुधम् तथा समस्ततीर्थानि पूर्वोक्तानि यः सुन्दरि मोदकै पुष्पमिश्रैश्च स्नापयन्ति पृथक् प्रुधक पृथक् पश्चात्पटः सङ्घोष्र्भेजीमुरजनिस्वनैः काहलैस्तलशब्दैश्च चा मृदङ्गैर्चर्चरैस्तथा अन्यैश्च विविधैर्वाद्यैर्खण्डास्वनविमिश्रितैः स्त्रीणां मङ्गलशब्दैश्च स्तुतिशब्दमैर् मनोरमैः जयशब्दैस्तद्धा स्तोत्रैर्वीणा वेणुनिनादितैः श्रूयते सुमकां शब्दः सागरस्येव गर्जतः मुनिनां वेदघोषैश्च मन्त्रकोषैस्तथा परैः नानास्तोत्ररवैपुण्यैः सामघानोपबृंहितैः क्षमावदादवेश्याभिक्तितरक्तांशुकैस्तथा मरैरत्नदण्डैश्च विज्येते रामकेशवं यक्षविद्याकरैसिद्धैर्देवगन्धर्वचारणैः आदित्या वसवो रुद्रा साध्या विश्वे मरुद्गुणाः लोकपालास्तधान्येजस्तु वन्दिपुरुषोत्तमं नमस्ते देवदेवेश्व पुराणपुरुषोत्तमं सर्गस्तित्यन्तकृद्देव लोकनाथजगत्पदे त्रैलोक्यचरणं देवं ब्रह्मण्यं मोक्षकारणं तं न भक्त्या सर्वकामफलप्रदं स्तुत्वैवं विभूता कृष्णं रामं चैव महाबलं सुभद्रां चापि विधिजे तदा काश्ये व्यवस्थिताः गायन्ति देवगन्धर्वा नृत्यन्त्यप्सरसस्तथा देवतूर्याणि वाद्यन् देवादावान्ति सुशीलताः सुशीतलाः पुष्पमिश्रं तदा मेका वर्षं त्यागाशगोचराः जयशब्दं च कुर्वन्ति मुनयसिद्धचारणाः शक्राद्या विबुधा सर्वे ऋषय्यपितरस्तथा प्रजानावदयो नागा ये चान्ये स्वर्गवासिनः तदो मङ्गलसम्भारैर्विधिमन्द्रपुरस्कृतम् चनिकम् द्रव्यम् वृहीत्वा देवता गणाः इन्द्रविष्णोमः वीर्यौ सूर्या चन्द्रमसौ तथा धाता चैव विधाता च चा तथा चैव निलनलौ पूर्ष भगोर्यमत्वष्टविवस्वानं सुमांस्तथा रुद्राश्विसहितो धीमान्मित्रेण वरुणेन च रुद्राैर्वसुभिरादित्यैर्वालकिल्यैर्मरीचिजैः भृगुभिश्चाङ्गिरोभिश्च सर्वविद्यासु निष्ठितैः पितामहपुलस्त्यश्च पुलहश्च महातपाः अङ्गिराकश्यपोत्रिश्च मरीचिर्भृगुरेव च ऋदुर्हर प्रचेताश्च मनुर्दक्षस्तथैव च ऋतवश्च ग्रहश्चैव ज्योतींषि च द्विजोत्तमाः मूर्तिमत्यश्च सजितो देवाश्चैव सनातनाः सुभद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च पृथिवीद्यविश्वैव पादपाश्च द्विजोत्तमाः अदिर्देवमादा जह्री स्वाहा सरस्वती उमाश्चिशिनीवलि तथा चानुमधिकुः राका च दृशना चैव पत्न्यश्चान्यादिवौकसां श्रेष्ठो गिरीणां हिमवान् नागराजश्च वामनः पारियात्रश्च विध्यंश्च मेरुश्चानेघशृङ्गवान् ऐषपदनुचरकलाकाष्ठास्तथैव च मा सार्धमासा समाहा। रात्र्यहनी समाः उच्चैः श्रवहयश्रेष्ठो नागराजश्च वामनः अरुणो गरुडश्चैव लता चौषधिभिः सह समागच्छन्ति सर्वदः पालो यमश्च मृत्युश्च यमस्यानुचराश्चयेत् बहुलत्वाच्च नोक्ता ये विविधा देवता गणाः ते देवस्याभिषेकार्थं समायान्ति तदस्ततः दिव्यसम्भरसंयुक्तै कलशै काञ्चनैस्तथा सारस्वदिभिपुण्याभिर्दिव्यतोयाभिरेव च तो ये नाकाशगङ्गाय कृष्णं रामेण सङ्गतम् सपुष्पैः कुम्भसलिलैः स्नापयत्यम्बरे स्थिताः संचरन् दिव्यमानानि देवानामम्बरे तथा उच्चावशानि दिव्यानि कामकानि स्थिराणि च दिव्यरत्नविचित्राणि सेवितान्यप्सरो गणैः गीदैर्वाग्याैः पदाकाभिशोभितानि समन्ततः यदि श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्येऽभिषेको नाम षष्टितमोऽध्यायः ओम्